मुद्गलपुराणं खण्डं सेवन् विघ्नराजचरितम् अध्यायम् एय् ममासुरशान्तिवर्णनं श्रीगणेशाय नमः कश्यप उवाच तदो ममासुरस्तत्र सावधानो बभूवः समीपे कमलं संस्थं दृष्ट्वा भययुदो भवद त्य्वा गैत्यकमल प्रणना करपुटम भीदुम सुद मच कमलाय्य परेशाय सुवास, सुवासारिणे नम विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते संसारे दुःखसंयुक्तात् सुखयुक्ता त्वया कृताः योगवासनया युक्ता ब्रह्मभूता भवन्ति ते वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रूवे तेषां ब्रह्मस्वरूपाय केलकाय नमो नमः विश्वं कमलसम्भूतम् पद्माकारं वदन्ति तद् अत त्वां कस्समर्थस्यास्तोदुं शस्त्रोत्तमोत्तमः नमो नमः प्रसन्नत्वम् भव मां रक्षते भयाद दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे कमलं गणराजस्य हस्तगं प्रबभूवः ममासुरप्रसन्नात्मा काव्येन विघ्ननायकं जगामतं प्रणम्यैव पुपुजे भक्तिसंयुधः पुनः प्रणम्य विघ्नेशं कृत्वा करपुडं प्रिये तुष्टावकर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकं ममा सुर उवाच विघ्नेशाय नमस्तुभ्यम् सत्ता प्रचाने अनाद परेशा ब्रह्मेशाय नमो नम गा गण तो चालकाय परात्मे आनंदय सदानंदयकाय नमो नम े रम्बायैकदन्दाय शूर्पकर्णाय धुण्ढये लम्बोदराय वैतुभ्यं भक्तपाल नमो नमः स्वानन्दपदये तुभ्यं योगाकारस्वरूपिणे शान्धिभ्यः शान्तिदात्रेदे शान्तिस्थाय नमो नमः ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक विनायकाय देवानां दैत्यानां पालकायते। ते आदिपूज्याय चांतेते ते अवशिष्टाय सिद्धि नमः सिद्धिबुद्धिपदे तुभ्यं च दुर्भुज नमो नमः शेषस्योपरि संस्थाय नागेशध्वजधारिणे गजाननाय देवेश नमो दैत्येशरूपिणे भक्तानां विघ्नहन्द्रेदेश्य भक्तानां विनाशिने योगिनां समभावाय हृदिस्थाय नमो नमः नानाभेदमयम् ब्रह्मा सद्रूपं वेदवादतः भेदहीनं च सद्रूपं तयो त्वमञ्जसा समस्वानन्दसंस्तो ह्यः को जानादिततं प्रभुं विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकं तेनाहं कृदकृत्यश्चाधुना जादो न संशयः पन्यं मे जन्मकर्मादि येन दृष्टो गजाननः किं स्तौमि त्वां गणेशान् यत्र वेदादयः प्रभो शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः एवं ममा सुरस्तुत्वा ननर्तास्सौ सुभाग्यवान् साश्रु साश्रुनेत्रस्सुरूपिणी तमुवाच महाभक्त्या युतं विघ्नप्रणायकः वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेद सकामेभ्यो विशेषेण नानाकामप्रदायकं निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति मम भक्तिप्रदं मम भावहरं सदा विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः जगादभक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ममासुर उवाच यदि प्रसन्नभावेन वरं दास्यसि विघ्नप तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो गाणपत्यसहावासं देहिनाथ निरन्तरं स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्द्रितः दासोऽहं ते गणाधीश नान्यं याचे वरं परं तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्च विघ्नेश उवाच मदीया भक्तिरुग्रादे भविष्यति ममासुर गाणपत्यप्रियत्वम् च योगयुक्तो भविष्यसि स्वस्थाने निर्भयो भूत्वा तिष्ठत्वम् मत्परायणः स्वधर्मविधिहीनं त्वम् कर्मभुङ्क्षुजनैः कृतम् यत्रादौ पूजनम् मे न वा मम मम भावेन सम्मोह्य राज्यं गुरु हृदि स्थितः मद्भक्तान् दासवन्नित्यं रक्षस्वस्नेहभावतः मम भावविहीनांश्च भाव कुरु मे मम दायुतान् एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् मम सुरस्थं तथेरिप्रहृष्टो वाक्यमब्रवीद प्रणम्य ममो दैत्यस्वस्थाने प्रजगामः शान्तिं धृत्वा गणेशानं भजते सर्वभावतः दैत्यास्थं त्यज भययुक्ता विशेषतः पादालं विविशु सद्य सोऽपि हर्षयुधोऽ भवद एवं ममा सुरं शान्तं चकारविघ्ननायकः स्वाधीनं कृत्यतं स्थाने स्थापयामा समानिनी ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ॐ